हरिओं श्री सीता रामचंद्र नम अथ श्री अध्यात्म रामायण युद्धकांडे तृतीय है श्री महादेव वाच विभीषण महाभाग अगत्य चतुर्ंत्रि आगत गुखे समितमीन रामीव लोचन रावणस्यानुजोहं ते दारः तु विभीषणः नाम्ना भ्रात्रा निरस्तोऽहम् त्वामेव शरणं गतः हितमुक्तं मया देव तस्य च विदितात्मनः सीता माय वैदेहीं प्रेषयेति पुनः पुनः उक्तोऽपि न शृणोत्येव कालपाशावशं गतः हन्तुं मां खड्गमादाय राद्रवद्राक्षसाधमः ततो सजीवैः चतुर्भिः सहितोभयात् त्वामेव भवमोक्षाय मुमुक्षू शरणं गतः विभीषणवच श्रुत्वा सुग्रीवो वाक्यमब्रवीत् विश्वासाहो न ते राम मायावि राक्षसाधमः ीताः तु विशेषेण रावणस्या न जो बलि मन्त्रैभिः सायुधै अस्मान् विवरेण्यन्निष्यति तदा ज्ञापयमेदेव वानरैः ममैव भातिं ते राम बुद्ध्या किं निश्चितं वद श्रुत्वा सुग्रीवचनम् राम सस्मितमब्रवीत् यदिच्छामि कपि श्रेष्ठकान् सर्वान् सहेश्वरान् निशार्धेन संमन्यां श्रूयामि निमिषार्धतः अतो मया भयं दत्तम् शीघ्रम् मानय रक्षसं सकृदेव प्रपन्नाय तवास्मीति च याचते अभयं सर्वभूतेभ्यो ददाम्येतद्वृतं मम रामस्य वचनं श्रुत्वा सुग्रीवो हृष्ट मानसः विभीषणम् अनाथाय दर्शयामास राघवम् विभीषणस्तु साष्टाङ्गम् प्रणिपत्य रघुत्तमम् हश गद्गदया वाचा भक्त्या च परयान्वितः रामम् श्यामम् विजालाक्षम् प्रसन्न मुखपङ्कजम् लक्ष्मणेन समन्वितं कुटाञ्जलि पुटो भूत्वा श्रोतुं तमुपचक्रमे विभीषण उवाच नमस्ते राम रामजेन्द्र नमसेतामनोरम नमस्ते चण्ड गोदण्ड नमस्ते भक्तवत्सल नमोऽनन्ताय शान्ताय रामायामित तेजसे सुग्रीव च ते रघूणां पतये नमः जगदुत्पत्तिनाशानां करणाय महात्मने त्रैलोक्य गुरुवे अनादि गृहस्थाय नमो नमः तम् आदिर्जगतां राम तमेव स्थितिकारणं तमेव निधनस्थानं श्रेच्छाचार्य त्वमेव हि भूतानां बैरन्तश्च राघवे व्याप्यवा व्यापकरूपेण भवान् भाति जगन्मयः सन्नायया ऋतज्ञाना नष्टात्मानो विचेतसः गतागतम् प्रपद्यन्ते पाप पुण्येव शास्त्र तावत् सत्यम् जगद्भाति शुक्तिकारयतम् यथा यावन्न ज्ञायते ज्ञानम् चेतसानन्यगामिना तदनात् सदा युक्ता पुत्रदारगृहादिषु रमन्ति विषयान् सर्वान् अन्ते दुःखप्रदान् विभ तमिन्द्रोऽग्निर्यमो यक्षो वरुणश्च तथा निलः कुबेरश्च तथा रुद्रः तमेव पुरुषोत्तमः तम् मणोरप्पणीयाश्च ूलतरप्रभिता सर्वलोकानां माता धाता त्वमेव हि आदिमध्यान्तरहिते परिपूर्णोचितो व्ययः तम् पाणिपादरहिते चक्षुच्यो त्योत्र विवर्जितः श्रोता द्रष्टा गृहीता च जवनस्तं खरान्तो व्यतिरिक्तम् निर्गुणो निरूपाशयः निर्विकल्पो निर्विकारो निर्कारो निरीश्वर षड् भाव रतोनादि पुरुष प्रकृते परः मायया गृह्यमाणस्थं मनुष्यैव भाव्यसे ज्ञात्वा तां निर्गुणमजं वैष्णव मोक्षगामिनः अहं तत्पादसद्भक्ति निःश्रेणीं प्राप्य राघव इच्छामि ज्ञानयोगाख्यम् सौधमारोढुमीश्वर नमः राम नमः कारुणिकोत्तम रावणा रे नमस्तुभ्यम् त्राहे मां भवसागरात् तथा प्रसन्न प्रोवाच श्रीरामो भक्तवत्सर वरं वृणीष्व भद्रं स्म्यहं विभीषण उवाच धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघवे तत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशुचि नास्ति मत्सदृशो लोके राम तन्मूर्तिदर्शनात् कर्मबन्ध विनाशाय तद् ज्ञानं भक्तिलक्षणम् तद् ध्यानं परमार्थं च देहि मे रघुनन्दन न याचे राम सुखं विषय्य सम्भवम् तत्पाद कमले सक्ता भक्तिरेव सदातु मे ॐ इत्युक्त्वा पुनः प्रीतो राक्षसं शृणो वक्ष्यामि ते रहस्यं मम निश्चितम् मद्भक्तानां प्रशान्तानां योगिनां वीतरागिणां हृदये सीतया नित्यम् वसाम्यत्र न संशयः तस्मात् तं सर्वदा शान्तः सर्वमष वर्जितः बान्ध्यात्स मोक्षसे नित्यं घोरसंसारसागरात् स्तोत्रमेतै पठेद्यस्तु निखेद्य श्रुणुयादपि मत्प्रीयते ममाभीष्टम् सारूप्यम् समवाप्नुयात् इत्युक्त्वा लक्ष्मणं प्राहे श्रीरामो भक्तभक्तिमान् पश्यत् इदानीमेवैष मम सन्दर्शने फलम् लङ्काराज्ये भिक्ष्यामि जलमानय सागरात् यावत् सूर्यश्च यावत् तिष्ठति यावन्मकथा लोके तावद्राज्यं करोत्यसौ इत्युक्त्वा लक्ष्मणे नाम्बू ध्यानाय कलश लङ्काराज्याधिपत्यार्थम् अभिषेकम् ब्रह्मापतिः कारयामासचिवै लक्ष्मणेन विशेषतश्च साधु साध्वीत सर्वे वानरास्तु भूर्भृशम् सुग्रीवोऽपि परिपज्य विभीषणथा ब्रवीत् विभीषणः वयं सर्वे रामस्य परमात्मनः किंकरः तत्र मुख्यत्वं भक्त्या रामपरिग्रहात् रावणस्य विनाशे तं साहाय्यं कर्तुमर्हसि विभीषणवाचीयान् साहाय्यत्वे रामस्य परमात्मनः किं तु दास्यं करिष्येहम् भक्त्या शक्त्या ह्यमाय दश ग्रीवेण सन्दिष्ट शुभो नाम महासुरः संस्थितोऽहम्बरे वाक्यम् सुग्रीवम् इदमब्रवीत् स मह रावणो राजा भ्रातरं राक्षसाधिपः महाकुले प्रचोदस्त्वम् राजासि वचनारिणाम् मम भ्रातुः समानस्थं तव नास्य भार्याम् राजपुत्रस्य किं तव किष्किन्धां याहि हरिभिः लङ्कां शक्या न दैवतैः प्राप्तुं किं मा न वैरल्प सत्वैर्वानर यूथपै सम्प्रापयन्तं वानरः प्रापद्यन्त साक्षिप्रम् निहन्तुं दृढमुष्टिभिः वानरै हन्यमानस्तु शुको रामं मथा ब्रवीत् न दूतान् धनन्ति राजेन्द्र वानरान् वानर वारय प्रभो राम, राम शुकस्य परिदेवितं मा वधीष्ठेति राम त्वान् वारना वारया मास वानरान् पुनरम्बरमासाद्य शुकसुग्रीवमब्रवीत् ब्रूहि राजन्दशग्रीवम् किं वक्ष्यामि व्रजाम्यहम् सुग्रीव उवाच मम भ्राता तथा त्वम् राक्षसाधम् हन्तव्यस्तं मया यत्नात् स पुत्र बलवाहनः ब्रूहि मे रामचन्द्रस्य बाल्याम् हृत्वा क्व ततो रामाज्ञया धृत्वा शुकं बद्ध्वान् स रक्षयत् च दूरोऽपि ततः पूर्वं दृष्ट्वा कपि विलम्बयत् यथावत् कथयामास रावणा यः स रक्षसः दीर्घचिन्ता पुरो भूत्वा निःश्वसन्नास मन्दिरे रामो रक्तान्तलोचनः पश्य लक्षणदुष्टोऽसौ वारिधि मामपागतं नाभिनन्दति दुष्टात्मा दर्शनार्थं जानाति मानुषोऽयं मे किं करिष्यति वानरे अद्य पश्यमः बाहो शोषयिष्यामि वारिधिं पदेनैव गमिष्यन्ति वानरा विगतज्रः इत्युक्ताकरोध ताम्राक्ष आरोपीत धनुर्धर सुनिराणमादाय बा, कालाग्नि सुदृशप्रभम् सन्धाय चापमाकृष्य रामो वाक्यं मथा ब्रवीत् पश्यन्तु सर्वभूतानि रामस्य शर्वविक्रमम् इदानीं भस्मसात्कुर्याम् समुद्रम् सरिताम् पतिम् एवं ब्रुवति रामे तु सशैलवनकानन चालवसुधा द्योश्च दिशश्च तमसा वृताः चक्षुभये सागरो वेलां भयाद्योजनमत्यघात् त्रिमेनक्रीना प्रतप्ता परितत्र एतस्मिन्नन्तरे साक्षात् सागरो दिव्यरूपध दिव्या वरणसम्पन्न सभासा भासयन्दिश <laughs> न्तस्थ दिव्यरत्नारि पराभ्यां परिगृह्यस पादयो पुरत्र क्षिप्त्वा रामस्योपायनं बहु दण्डव स्वणिपत्याह रामं रक्तान्तलोचनं त्राहि त्राहि जगन्नाथ रामः त्रैलोक्य रक्षक जडोऽहं राम ते सृष्ट्यजताय निखिलं सभावं अन्यथा कर्तुम् कश्च निर्मितम् स्थूलानि पञ्चभूतानि जान्येव स्वभावतः कृत्वा भवतैतानि तदाज्ञां लङ्घयन्ति न तामसा धर्मो राम भूतानि प्रभवन्ति हि कारुणामगमात्रेषां जड तं निर्गुणस्थं निराकारो यदा माया गुणान् प्रभवो लीलयाङ्गीकरोषी तम् तदा वैराजनामवान् गुणात्मरो विराजश्च सत्वादेव बभूवीरे रजो गुरुणा प्रयैशाद्या मन्योर्भूत पति तव तामहं माया छन्नम् लीलया मानुच जडबुद्धिः जडो मूर्ख कसम जानामि निर्गुणम् दण्डैव हि मूर्खाणां तन्मार्ग प्रापक प्रभो भूतानामर श्रेष्ठ पशुनाम लगडो यथा शरणं ते व्रजामि च शरण्यं भक्तवत्सल अभयं देहि मे राम लङ्कामार्गं ददामि ते श्रीराम उवाच अमोघो अयम् महाबाण कस्मिन् देशे निपात्यताम् लक्ष्यं दर्शय मे शीघ्रम् बाणस्य मोघपातिनः रामस्य वचनं कृत्वा करे दृष्ट्वा महाशरम् महोदधि महातेजा राघवम् वाक्यम् अब्रवीत् रामोत्तरप्रदेशे तु द्रमकुल्य इति श्रुतः प्रदेश तत्र भव पापात्मा नो दिवानिशम् बाधन्ते मां रघुश्रेष्ठ तत्र ते सुट्टो रामेण सृष्टो बाणास्तु क्षणादाभीरमण्डलम् हत्वा पुनस्तमागत्य तूणेरे पूर्ववत्सितः ततो ब्रवीत् रघुश्रेष्ठम् सागरो विनयान्वितः नलस्येतुं कुरुत्वस्मिन् जले विश्वकर्मणः सुतो धीमान् समर्थोऽस्मिन् कार्ये लब्धवरोहरि कीर्तिं जानन्तु ते लोका सर्वलोकमलपहा इत्युक्त्वा राघवम् नत्वा ययोसिन्धूर दृश्यताम् ततो रामः सुग्रीव लक्ष्मणाभ्याम् समन्वितः नलम् आज्ञाय पत् शिघ्रम् तु बन्धने ततोऽसि रुष्ट प्लवकेन्द्रयुतपै महानगेन्द्र पतिमैर्युतोनलय प्रबन्धसेतुं शतयोजनयतं सुविस्तृतं पर्वतपादपदृढम् इति श्रीमदध्यासरामायणे मामेश्वरसंवादे युद्धकाण्डे तृतीय सर्गे श्रीसीतारामचन्द्रार्पणमस्तु